मुद्गलपुराणं खण्डं नयन् योगचरितम् अध्यायं ट्वेन्टि सेवेन् भाद्रपदादिसार्धैकमासश्रवणमाहात्म्यवर्णनं श्रीगणेशाय नमः सूत उवाच महायोगी भाद्रपदे पुलस्त्यो गणपेरतः प्रतिपतो गणेशं तत्र विप्रादयो विप्रश्रवणार्थं समायेयुः यथाविधिजना सर्वे शुश्रुवुर्भक्ति तत्पराः अर्धेन संयुतं नित्यं म उद्गलं मुनिसत्तमः कथयामासहर्षेण गणेशार्थविचक्षणः तत्र सर्पो विले कस्मिंश्चिद्दिवसे विप्रभाग्येन प्रेरितः पुरा मुनयः सुवपुः सर्वे रात्रौ सर्पो मार्गे स्वेच्छया सुखसंयुधः वनस्थो भुजङ्गमम् आययौहन्तुमावेशत्तयोर्युद्धं बभूवः न कुलेन बलाढ्येन हदं सर्पं वनान्तरे तं गृष्य गणपाः सद्यो ब्रह्मभूतं प्रचक्रिरे तं ज्ञात्वा विस्मिता सर्वे देवेन्द्राद्या महामदे परस्परम् समुचुस्ते सा श्रुनेत्रा महर्षयः अहोमौद्गलमाहात्म्यं वक्तुं सर्वैर्न शक्यते सर्पो ज्ञानाच्च सश्रुत्वा किञ्चिद् ब्रह्ममयोधुना सम्पूर्णमौद्गलं यैस्तु संश्रुतं तैः प्रलभ्यते न विशेषेण किं विशिष्टमतः परं सम्पूर्णं मौद्गलं यैश्च संश्रुतं ते गणेश्वराः ज्ञातव्या लोकनाथा वै पावनार्थं भवन्त्यधः नरजन्मधरो यस्यान्मौद्गलं न शृणोति चेद् वञ्चितो माययापूर्णो वृथा धिक्तस्य जीवितम् विघ्नराजनमत्तुभ्यं देहि जन्मधरातले नित्यम उद्गलः संसक्तान् कुरु नो मानवान् किल दिक्स्वर्गं देवदेवे स्यान् यत्र कर्मफलं न च प्रियदे देवदेवेश्यैकर्म तद्व्यर्थतां व्ययौ अहोकिडपतङ्गादि यो नौ जन्मधरो भवेद भारते साधुसंज्ञे न ब्रह्मीभूतो भविष्यति सर्पोऽयं नरवाखीनो न ना जानाति किमप्यहो मनुष्यवाग्भवं भावं तथा शुश्रावमौद्गलं तेनैव ब्रह्मभूतोऽयं तत्स्वनन्दके पुरे किं पुनर्न रजातिस्थो प्राप्नुयान्न गजाननं एवमुक्त्वा मराभ्यास्तं स्वं स्वं स्थानगमाययुः अधुना प्रकृतं वच्मि सर्वसौख्यकरं परम् अश्विन्यां पूर्णिमायां च तत्समाप्तं बभूवः मौद्गलं हर्षसंयुक्ता श्रोतारस्तं पुपूजिरे सर्वैः साकं महायोगी पारणं स चकारः तद सर्वान् प्रतिपदि महायशाः तदाज्ञयायै सर्वे स्वस्वमाश्रमकं मुने गणेशभजने सक्ता बभूवुः सर्वभावतः इह भुक्त्वाखिलान् भोगानन्दे स्वानन्दमाययुः बभूगुर्ब्रह्मभूतास्ते परं दृष्ट्वा गणेश्वरम् इति ते सर्वमाख्यातं यशत् सार्धैकमासजम् मौद्गलश्रवणाज्जातं भाद्रमासादिसम्भवम् एवं त्वनन्दरूपाश्च जन्तवो ब्रह्मलेभिरे न वक्तुं शक्यते तत्र मौद्गलश्रवणेन वै ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे मुद्गलदक्षसंवादे भाद्रपादादि सार्धैकमास श्रवणमाकात्म्यवर्णनं नाम सप्तविंशोऽध्यायः ओम्